भगवद्गीता चाप्टर् टु वर्सस् वन् टु टेन् अदद्युदियोऽध्यायः सञ्जय उवाच तन्तता कृपयाविष्टमश्रुपूर्णाकुलेक्षणं विषीदन्तमिदं वाक्यमुवाच मधुसूदनः श्रीभगवानुवाच कुदत्वा कुदस्त्वाकस्मलमिदं विषमे समुपस्थितम् अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन क्लैव्यमास्मगमक् प्रार्थन्नैदत्त्वय्युपपद्यते क्षुद्रं हृदय दौर्बल्यं त्यक्तोत्तिष्ठपरन्तप अर्जुन उवाच कदं भीष्महं संज्ञे द्रोणञ्जमधुसूदन यिषुभिप्रतियोज्यामि पूजार्हा वरिसूदना गुरुनत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीकलोके हत्वार्थकामांस्तु गुरूनिकैव भुञ्जीयभोगान् रुधिरप्रदिग्धान् न चैदद्विद्मः कतररन्नो गरीयो यद्वा जये म यदि वा नो जयेयुः यानेव सत्त्वा न जिजिविषामस्तेवस्थिदाप्रमुखेदार्तराष्ट्राः कार्पण्यदोषोपकतस्वभावत्पृच्छामि त्वां धर्मसम्मूढचेधाः यत्रेयस्यान्निश्चितं ब्रूहितन्मे शिष्यस्तेऽहं चाधिमान् त्वां प्रपन्नम् न हि प्रपश्यामि ममापनुद्याद्यच्छोगमुच्चोषणमिन्द्रियाणाम् अवाप्य भूमावसपद्ममृद्धं राज्यं सुराणामपि चापि पद्यम् सञ्जय उवाच मुक्त्वा कृषिकेशङ्गुडाकेशक्परन्तपः न योच्य इति गोविन्दमुक्त्वा तूष्णीं बभूवः तमुवाचकृषिकेशप्रसन्निव भारत सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः भगवद्गीता चाप्टर् टु वर्ष सेवेन् टु ट्वेन्टि श्रीभगवानुवाच अशोच्यानन्वशोचावादांश्च भासते गतासु न गतासुश्च नानुशोचन्ति पण्डिताः न त्वेवासं जादुनासं न त्वन्न मे जनाधिवाः न चैव न भविष्यामः सर्वे वयमतः परम् देहिनोऽस्मिन् यदा देहे कौमारं यौवनं जरा सदा देवान्धरप्राप्तिर्धीरत्र न मुच्यति मात्रा स्पर्शास्तु कौन्धेयशीतोष्णसुखदुःखदाः आगमापायिनो नित्य यासान्ति दिक्ष स्वभारत यं हि न व्यपयन्त्येदे पुरुषं पुरुषर्षभा समदुःख सुखन् धीरं सोमृतत्वाय कल्पते विद्यते भावो नाभावो विद्यते सदः उभयोरी दृष्ट त्वनयोस्तदर्शिभिः अविनाशितु तद्विद्येन सर्वमिदं ददम् विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति अन्धवन्दमे देहा नित्यस्योक्ता शरीरिणः अनाशिनो प्रमेयस्य तस्माद्युध्यस्वभारत ययेनम् वेत्ति कन्दारम् यत् शैनम् मन्यदे कथम् उभौ तौ न विजानीतो नायम् न म्रियदे म्रियदेवा कदाचिह्नायं भूत्वा भविधा वानभूयः अजो नित्य शाश्वतोऽयं पुराणो न हन्यदे हन्यमाने शरीरे भगवद्गीता चाप्टर् टु वर्षस् ट्वेण्टि वन् टु तर्टि वेदाविनाशिनं नित्यं व्यये न कथं स पुरुषः पार्थकङ्कातयदिहन्ति कं वासांसिजीर्णानि यथा विहाय नवानि गृह्णाति नरोवराणि तथा शरीराणि विहाय जीर्णान्य सम्यादिनवानि देही नैनं चिन्तन्ति शस्त्राणि नैनं दहति पावकः न चेन्नङ्क्लेदयन्द्याभो न शोषयति मारुतः अच्छेद्योयमदाह्योऽयमक्लेद्यो शोष्य एव च नित्यः सर्वदधस्तानुरचलोऽयं सनातनः अव्यक्रोऽयमचिन्त्योऽयमविगार्योऽयमुच्यते तस्मादेवं विदि त्वैनं नानुशोचितुमर्हसि अथ चैनं नित्यजादन्नित्यं वा मन्यसे मृदं तथापि त्वं महाबाहो नैवं शोचितुमर्हसि जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृदस्य च तस्मादपरिहार्येऽर्थे नं शोचितुमर्हसि अव्यक्तादीनि भूतानि व्यक्त्रमध्यानि भारत अव्यक्तनिधनान्येव तत्र का परिदेवना आश्चर्यवत् पश्यति कश्चिदेनमाश्चर्यवद् वदति तथैव चान्यः आश्चर्यवच्चैनमन्यशृणोदिश्रुत्वाप्यनं वेद न चैव कश्चित् देही नित्यमवध्योयन्देः सर्वस्य भारत तस्मात् सर्वाणि भूतानि न त्वं शोचितुमर्हसि वर्षस् तर्टि 40 टु फोर्टि स्वधर्ममपि चावेक्ष्य नविकम् विदुमर्हसि धर्म्याद्दि युद्धाश्रेयोऽन्यक्षत्रियस्य न विद्यते यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतं सुही नक्षत्रिया पार्तलभन्दे युद्धमीदृशम् अथ चेत्त्वमिमं मिमन्धर्म्यं सङ्ग्रामन्न करिष्यसि ततः स्वधर्मं कीर्तिं जित्वा पापमवाप्स्यसि अभीर्तिं चाभिभूतानि कथयिष्यन्ति दे व्ययां भयाद्रणादुपरदं मंस्यन्ते त्वां महारथाः येषां च त्वं बहुमदो भूत्वा यास्य शिलाघवम् अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः निन्दन्धस्तव सामर्थ्यं दतो दुःखतरन्नु अधो वा प्राक्ष्यसि स्वर्गं चित्वा वा भोक्ष्यसे महीं तस्मादुत्तिष्ठकौण्डेयुद्धाय कृतनिश्चयः सुखदुःखे समे कृत्वा लाभालाभौ जया जयौ तदो युद्धाय युज्यस्वन्नैवं पावमवाप्स्यसि येषा तेभिहिता साङ्ख्ये बुद्धिर्योगे पार्थ मां शृणु बुद्ध्यायुक्तो यया पार्थकर्मबन्धं प्रकाश्यसि नेहाविक्रमनाशोऽस्ति प्रत्यवायो न विद्यते धर्मस्य त्रायदे महदोगयात् भगवद्गीता चाप्टर् टु वर्षस् फोर्टि वन् टु फिफ्टि व्यवसायात्मिका बुद्धिलेखेह कुरु नन्दना बहुशागाह्यनन्दाश्च बुद्धयो व्यवसायिनां यामिमां पुष्टिदां वाजं प्रवदन्यविपस्थितः वेदवादरदा प्रार्थनान्यदस्तीति वादिनः आमात्मानः स्वर्गपरा जन्म तया प्रहृद व्यवसायात्मिका बुद्धिः समाधौ न विधीयते त्रैगुण्यविषया वेदान्निस्त्रैगुण्यो भवार्जुन निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेवात्मवान् यावानर्थ उदपाने सर्वतः संवृतोदके वान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः कर्मण्येवाधिकारस्ते बले मा बलेषु कदाचन मा कर्म दुर्भूर्मादे सङ्गोस्त्वकर्मणि योगस्थः कुरु कर्माणि धनञ्जय सिद्ध तो समो भूत्वा समत्वं योगमुच्यते दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय बुद्धौ शरणमन्विच्य कृपणाफलहेतवः बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते तस्माद्योगाय युज्यस्वयोगकर्मसु कौशलम् भगवद्गीता चाप्टर् टु वर्ष फिफ्टि वन् टु सिक्स्टि कर्मजं बुद्धियुक्ता हि भवलं त्यक्त्वा मनीषिणः यदा दे मोहकलिलं बुद्धिर्व्यधितरिष्यति तदा गन्धासिर्वेदं श्रोधव्यस्य श्रुतस्य च श्रुतिविप्रतिपन्नादे यदा तास्यति निश्च समादावचला बुद्धिस्तदा योगमवाप्स्यसि अर्जुन उवाच प्रज्ञस्य का भाषा समाधिस्तस्य केशव स्थितधि किं प्रभाषेद श्रीभगवानुवाच प्रजगादि कामान् सर्वान् पार्थमनोगदान् आत्मन्येवात्मना तुष्टस्थितप्रज्ञस्तदोच्यते दुःखेश्वनुद्विग्नमना सुखेषु विगदस्पृशः वीररागभयक्रोधस्थिदधीर्मुनिरुच्य देव यः सर्वत्रानाभिस्नेहस्तत्त प्राप्य शुभाशुभं यदा संहरदे चायं कूर्मोऽङ्गानीव सर्वशः इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता विषया विनिवर्तन्ते दे निराहारस्य देहिनः रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते यततोक्ष्यपि कौन् देयपुरुषस्य विपस्चितः इन्द्रियाणि प्रमादीनि हरन्ति प्रसभं मनः भगवद्गीता चाप्टर् टु वर्षस् सिक्स्टि वन् टु तानि सर्वानि संयम्य युक्र आसीदमत्सरः वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा ध्यायतो विषयं त्वं स सङ्गस्तेषु भजायते सङ्गः संजायते कामकामात् क्रोधोऽभिजायते क्रोधाद्भवति सम्मोहः सम्मोहा स्मृतिविभ्रमः स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात् प्रणश्यति रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति प्रसादे सर्वदुःखानां हानिरस्योपजायते प्रसन्नचेदशो ह्याशु बुद्धिपर्यवतिष्ठदे नास्ति बुद्धिरयुक्तस्य न ना चायुक्तस्य भावना न चाभावय दशान्दिरशान्दस्य बुदः सुखम् इन्द्रियाणां किचरतां यन्मनोनुविधीयते तदस्य हरदिप्रज्ञां वायुर्नावमिवाम्बसि तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता यानि सा सर्वभूतानां तस्याञ्जागर्ति संयमी यस्याञ्जाग्रतिभूतानि सा आपूर्यमाणमचलप्रदिष्टं समुद्रमावप्रविशन्ति यद्वत् तद्वत् कामायं प्रविशन्ति सर्वे स शान्तिमाप्नो दिनकामकामी विहाय कामान्यः सर्वान् पुमांश्चरदि निःस्पृहः निर्ममो निरसंहारः स येषा ब्राह्म्यस्थिदिक्पार्थन्यैनां प्राप्य विमुक्ष्यति स्थित्वा स्यामन्धकालेऽपिब्रह्मनिर्वाणमृच्छति ॐ तत्स इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे साङ्ख्ययोगो नामद्युतीयोऽध्यायः